श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध अथ चतुर्दशोऽध्यायः भवाटबिका स्पष्टीकरणं सहोवाच य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमं वहारविनिर्मितविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन् दुर्गाद्भवं दसुगमे ध्वन्या पतित ईश्वरस्य भगवतो विष्णोर्वंशवर्तिन्यां मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स देहनिष्पादितकर्मानुभवः श्मशानं वद शिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगे हस्तत्तापोपसेमनिं हरिगुरुचरणारविन्द मधुकरानुपदवीमवरुन्धे यस्यामूह वा एते सरीन्द्रियनामानः कर्मणा दस्यव एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपैकं बहुकृत्राधिगतं साक्षात्परं पुरुषाराधनलक्षणो योऽसौ धर्मस्थं तु सां पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शन श्रवणास्वादनां वघ्राणसङ्कल्पव्यवसाय दृढग्राम्योपभोगेन कुनाथस्य अजितात्मनो यथा सार्थस्य अथ च यत्र कौटुम्बिकां धारापत्यादयो नाम्ना कर्मणा मृगशृङ्गारा एवानिच्छतोऽपि कर्जस्य कुटुम्बिन उरणकवं संक्षमाणं मिश्रतोऽपि हरन्ति यथा शनुवत्सरं कृष्ण्यमाणम् अभ्यदग्धबीजक्षेत्रं पुनरेवावपनकाले भवत्येवमेव गृहाश्रमकर्मक्षेत्रं यस्मिन्न हि कर्माणि सीदन्ते यदयं कामं करण्ड्य एष आवसथः तत्र गतो दंशमशकसमाप सदैर्मनुभुञ्जैः स्थलभ मूषकादिभिरुपरुध्यमान बहिः प्राण क्वचित् परिं परिवर्तमानोऽस्मिन् न ध्वन्यविद्याकामकर्माभिरुपरक्तं मनसानुपपत्नार्थं नरलोकं पन्नमिते मिथ्या दृष्टिननुपश्यति तत्र च क्वचिदात् पोदकनिभां विषयालूपधावति पानभोजनं व्यवहारादिव्यसनलोलुपः क्वचिच्चाशेषदोषनिषदनं पुरेशविशेषं तद्वर्णगुणनिर्मितमतिः स्वर्णमुपादि सद्यग्ने कामकातर इवोल्मुकपिशाचम् अथ कदाचिन्निवासं पाणियद्रविणाद्यनेकात्मोपजीवनाभिनिवेशय तस्यां संसाराट् व्यामितस्ततः परिधावते क्वचिच्च वाद्योपम्ययां त्रमदयारोहमारोपित तत्कलं तत्कालरजसा रजनीभूत इवा साधु मर्यादौ रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति क्वचित् सकृतं जगतिं गतविषयवै तद्य स्वयं पराभिध्यानेन विभ्रंसितस्मृति तस्यैव मरीचितोयप्रायां तानेवाभिधावति क्वचिदुकुलं झिल्लेश्वनं परुसरं परुशरभसाटोपं प्रत्यक्षं परोक्षं वारिपुराजकुलनिर्भे स्थिते नातिव्यथितकर्णमूलहृदय स यदा दुग्धपूर्वशुकृतस्तदा कारकं कारं करकाकतुण्डाद्य पुण्यद्रुमलताविशोदपान वधुफलं भयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावते एकदा सद्प्रसङ्गान्निकृतमतिर्युदकस्त्रोतः स्खलनं ददुभयोऽपि दुःखदं पाखण्डम् अभियाति यदा त्वं परबाधियान्ध आत्मनिरोपलमसि तदा हि पितृपुत्रः बर्हिस्मतः पितृपुत्रान्वास खलु भक्षयति क्वचिदासाद्य गृहं दाववति प्रिं प्रियार्थविधुरमसुखोदर्कं शोकाग्निनादय्यमारो भृशं निर्वेदमुपगच्छति काल क्वचित्कालविसमितां विस्मितराजकुलरक्षसापसितप्रियं तमधनाशो प्रमितक इव विगतजीवलक्षण आस्ते कदाचिद् मनोरथोपङ्गतं पितृ पितामहाद्य सदिति अनुभवते, स्वप्ननिर्वृति लक्षणम् अनुभवति क्वचिद् गृहाश्रमकर्मचोदनाति भरगिरिमारुक्ष माणो लोकाभ्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं त्रविशन्निवसीदति क्वचित् च दुत्सहेन कायाभ्यन्तरबन्धिना गृहीतसार स्वकुण्टुम्बाय गृध्यन्ति स एव पुनरिद्राजगरगृहीतोऽन्धे तमसि मग्नशून्यारण्य इव शेते नान्यत्किञ्चन वेदसव